नमस् सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति मध्ये भवतां सर्वेषां स्वागतम् अद्य किं वक्तुमिच्छामि इति चेत् मनुष्यजीवनस्य एकमेव कर्तव्यमस्ति तदस्ति हरेहे भजनं तर्हि अत्र प्रतिसञ्चरधारायां यः जीवः अस्ति तत्र पशुरूपेण वा पक्षिरूपेण वा तत्र क्रमेण अग्रगमनं भवति अनन्तरं मनुष्यस्य उत्पत्तिः भवति इति वयं जानीमः तर्हि पशुजीवने मनसः सम्पूर्णतया विकासः न जातः तर्हि ततः अग्रे सङ्घर्षात् विकासः भवति इति वयं जानीमः तर्हि प्रारम्भिकस्तरे किम् अस्ति इति चेत् जडमेव अस्ति तर्हि प्रारम्भिकस्तरे जडमस्ति तर् तत्र गुणप्रभावेन तस्मात् जीवस्य आविर्भावः जीवे अणुमनः अपि वर्तते यदा सङ्घर्षः भवति तदानीम् अग्रगतिः भवति तर्हि अत्र अत्र विवक्षा का इति चेत् मैण्ड् इस् द क्रियेषन् आफ़् मेटर् एण्ड् मेटर् इस् द्रियेशन् आफ् कास्मिक् मैण्ड् परमपुरुषस्य मनसः जडस्य उत्पत्तिः भवति तर्हि जडे एव पुनः पारस्परिक पारस्परिकसङ्घर्षात् तत्र जीवस्य आविर्भावः तर्हि जी यदा जीवस्य आविर्भावः भवति तर्हि मनः अपि प्रकटी मनसः अपि प्रकटीकरणं भवति तर्हि अत्र तस्मिन् सन्दर्भे एकं वक्तुमिच्छामि किमिति चेत् एतादृश एद, अस्माकं क्रमशः विकासः भवति परमात्मातः क्रमशः विकासः भवति तर्हि परमात्मनि याः सम्भावनाः सन्ति याः शक्तयः सन्ति परमात्मनि तादृशसम्भावनाः मनुष्येषु अपि सम्भवन्ति तत्र कोऽपि जीवः तुच्छः नास्ति हीनः नास्ति दीनः नास्ति अदमः नास्ति परन्तु किम् अस्ति इति चेत् तत्र खेदस्य विषयः कः इति चेत् मनुष्ये यादृशसामर्थ्यं वर्तते तत्र अधिकाधिकसामर्थ्यस्य प्रयोगः एव न भवति इत्युक्ते सप्तप्रतिशतं सामर्थ्यं वर्तते चेत् तस् तस्य तस्मात् केवलं द्विप्रतिशतम् अथवा द्विप्रतिशतं सामर्थ्यस्य एव प्रयोगः भवति नवतिप्रतिशतं यद सामर्थ्यं वर्तते तत्तु तस्य प्रयोगः एव न क्रियते अस्माभिः अनन्तरम् अष्टप्रतिशतं यद् सामर्थ्यं वर्तते तस्य दुरुपयोगं कुर्मः वयम् इदानीं जगति ये मनुष्याः स्वस्य स्वस्य क्षेत्रे आ, बहु प्रगतिं कृतवन्तः उन्नतिं प्राप्तवन्तः तेषामपि केवलं द्विप्रतिशतं सामर्थ्यस्य प्रयोगेन एव एतादृशं लाभदायकम् अस्ति अथवा साफल्यं प्राप्तं परन्तु अस्माकम् इतोपि सामर्थ्यं वर्तते नवतिप्रतिशतं सामर्थ्यम् अस्ति अपि च अष्टप्रतिशतं सामर्थ्यं तस्य दुरुपयोगः अपि जायते इति कृत्वा अस्माकं आ, बहु सामर्थ्यस्य प्रयोगः एव न भवति तर्हि अस्माभिः तादृशसामर्थ्यस्य प्रयोगार्थं प्रयत्नशीलः प्रयत्नशीलाः वयं भवामः प्रयत्नशीलाः भवामः चेत् तदानीं ता या या यादृशसामर्थ्यम् अस्माकं गुप्तरूपेण अस्ति गाढरूपेण अस्ति तत्र तादृशसामर्थ्यस्य प्रयोगः शक्यते तदर्थम् अस्माभिः यतनीयम् तदर्थम् एव अत्र जीवने वयं वदामः तत्र आहारस्य परिवर्तनं निर्जल एतद् एतत् सर्वं यद् वदामः तत्र आदौ जनाः वदन्ति न मया न शक्यते मया न शक्यते इति वदन्ति परन्तु अस्मासु एतादृशसामर्थ्यम् अवश्यं वर्तते वयं न जानीमः तर्हि एतादृशसामर्थ्यानां प्राप्त्यर्थम् अथवा उपयोगार्थं प्रयोगार्थं वयं यत्नशीलाः भवामः चेत् तदानीं वयं ब्रह्म एव भवामः ब्रह्मविब्रह्म एव भवति तर्हि तत्र परमात्मनि यादृशसामर्थ्यं यादृशसामर्थ्यं वर्तते तादृशसामर्थ्यम् अस्मासु अपि वर्तते तदर्थम् अस्माभिः यत्नः करणीयः इदानीं तत्र मया उक्तं तत्र जडात् एव जीवस्य आविर्भावः जडः जडं तु परमात्मतः एव आविर्भूतम् इति मया उक्तम् यादृशभोजनं वयं कुर्मः मनुष्यः यादृशभोजनं करोति तदनुगुणं तस्य स्थूलशरीरं भवति तर्हि स्थूलशरीरं यादृशं भवति तदनुगुणं मनः भवति अतः अस्माकं खाद्यं बहु मुख्यं वर्तते अस्माकं व्यवहारे संयमः आवश्यकः यत्किमपि लभ्यते अस्माकं पुरतः तद् वयं चेत् तस्य प्रभावः अस्माकं शरीरे भवति यदा शरीरे भवति तर्हि शरीरे ये कोषाः सन्ति तेषु अपि अस्माकं खाद्यस्य प्रभावः भवति यद्यपि मनः सूक्ष्मः सूक्ष्मं वर्तते मनः तथापि मनसः उत्पत्तिः तु जडात् एव भवति तर्हि यदि वयं यदि मनुष्यः केवलम् अत्र वृत्ति अनुगुणं यदा कार्यं करोति तत्र मनुष्यस्य प्रगतिः तत्र सङ्घर्षेण जातः पशु पशुतः अथवा सस्यतः अस्माकं प्रगतिः जातः इति कृत्वा अस्मासु पशुव्यवहारः बहु प्रचलितः अस्ति तर्हि केवलं तदनुगुणमेव वयं व्यवहारं कुर्मः स्वतन्त्रतया चिन्तनं न कुर्मः विचारं न कुर्मः तदानीम् अस्माकं मनः भवति पशुमनः यस्मिन् शरीरे पशुमनः वर्तते तर्हि तादृशः पुरुषः पशुः एव भवति तर्हि क्रमेण किं भवति इति चेत् एतादृशपशु पशुव्यवहारमेव मनुष्यः करोति चेत् तदानीं क्षणैः शनैः तत्र किं भवति इति चेत् तस्य मनः सम्पूर्णतया पशुमनः ति यदा पशुमनः भवति तदानीं तादृशमनः मनुष्यशरीरे तस्य तत्र अड्जस्मेण्ट् न भवति इत्युक्ते यथा तत्र सङ्गणकमस्ति सङ्गणके यादृशचिप् आवश्यकं तादृशं स्थापयामः चेदेव तत् सम्यक्तया कार्यं करोति एवं मनुष्ये यादृशमनः आवश्यकं तादृशमनः अस्ति चेदेव मनुष्यः अग्रगतिं प्राप्तुं शक्नोति परन्तु यदा मनसः अधोगतिः जायते तदानीं तादृशमनः तस्मिन् शरीरे स्थातुं न शक्नोति यतोहि तयोः साम्यं न भवति तदानीं किं भवति इति चेत् अग्रिमजन्मनि इदानीं मनः पशुमनः अस्ति तर्हि अग्रिमजन्मनि तत्र मा मानवशरीरं मनुष्यशरीरं न लभ्यते यतोहि पशुमनः अस्ति चेत् तत्र पशुशरीरे एव तस्य तस्य सम्यक्तया कार्यं भवितुमर्हति अतः अग्रिमजन्मनि तत्र पशुशरीरे एव तस्य जन्म भवति तर्हि पुनः तादृशसङ्घर्षे सः जीवः प्रयत्नं करोति प्रयत्नं कृत्वा कृत्वा पुनः उन्नतिं प्राप्नोति यदा मनः पुनः सूक्ष्मं भवति तदानीम् अग् अग्रे कदाचित् तत्र मनुष्यशरीरं लभ्यते पुनः तत् तस्मिन् मनुष्यशरीरे पशुवत् व्यवहारः अस्ति चेत् पुनः मनसः अधोगतिः भवति पुनः एवम् एवं रीत्या चक्रं भवति पुनः पुनः एतादृशचक्रं भवति परन्तु यदा तत्र मनुष्यशरीरं लब्धं मनः तु पशुमनः अस्ति परन्तु तत्र परमात्मनः कृपातः अस्माकम् अन्तश्चक्षुः उद्घाटितं चेत् तदानीं तत्र मनसि सङ्घर्षः भवति परमात्मनः प्राप्त्यर्थं इण्टलेक्चुवल् क्लाश् भवति तदानीं क किं भवति इति चेत् क्रमेण मनसः विकासः भवति विवेकस्य जागरणं भवति विचारस्य जागरणं भवति तदानीं तत्र मनः इदानीं पशुमनः न भवति तत्र मनसः वर्धनं भवति इदानीं मनः स्वतन्त्रं भवति विचारस्य सामर्थ्यं भवति तर्हि आदिमस्तरे मनुष्यस्य मनः पशुमनः यदा सङ्घर्षेण अग्रगतिः भवति तदानीं परमात्मनः प्राप्त्यर्थम् इच्छा भवति तदर्थं यत्नः अपि भवति तदानीम् इदानीं तत्र मनः मनुष्यमनः भवति मनुष्यमनः भवति तत्र विचारसामर्थ्यं वर्तते यदि तस् तस्यां दशायां यदि अग्रगतिः भवति चेत् तत्र तृतीयस्तरे मनः देवमनः भवति मनः देवः देवः भवति आहत्य तत्र त्रयः स्तराः सन्ति प्रथमस्तरे पशुमनः द्वितीयस्तरे मनुष्यमनः तत्र फतंत्र, स्वतन्त्र स्वतन्त्रं मनः उद्भवति तृतीयं स्तरे दिव्यभावः आयाति मनः देवमनः भवति तर्हि यदा मनुष्यमनः लब्धः तदानीं साधनार्थं सः मनुष्यः यत्नः यत्नं करोति तर्हि यदा तस्यां तस्यां भावे सः प्रतिष्ठितः तस्मिन् भावे सः प्रतिष्ठितः भवति पुनः पुनः इतोपि अधिक अधिकसाधनां करोति निःस्वार्थजनसेवामपि करोति तदानीं सः दिव्यः भवति सः देवः भवति तर्हि तादृशदिव्यभावे सः प्रतिष्ठितः अस्ति चेत् परमात्मनि सः समर्पितम् अस्ति चेत् तदानीं सः स्वयं परमपुरुषः भवति तदर्थम् अत्र एकः श्लोकः अस्ति सर्वे च पशवः सन्ति तलवत् भूतले नराः तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः वीरभावं सदा प्राप्य क्रमेण देवता भवेत् पुनः वदामि सर्वे च पशवः सन्ति तलवत् भूतले नराः तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः वीरभावं सदा प्राप्य क्रमेण देवता भवेत् तर्हि प्रथमस्तरे यः मनुष्यः पशु अस्ति तस्य संस्काराः अपि पशुवत् भवन्ति तर् इदानीं तस्याम् अवस्थायां तस्य मनसः विकासः विकासः न जातः तर्हि सः पशुवत् भवति यदा पुनः सङ्घर्षं करोति तदानीं विवेकविचारस्य जागरणं भवति स्वतन्त्रमनः लभ्यते तदानीं वीरभावः प्रकाशितः भवति मनुष्य मनुष्यवीरभावः प्रकाशितः भवति यदा वीरभावं सदा प्राप्य क्रमेण वीरभावं प्राप्य तस्मिन् एव स प्रतिष्ठितः यदा भवति तदानीं सः देवता भवति तर्हि ये यदि अद्य पुरुषः पतितः अस्ति गृहीतः अस्ति पशुगतस्वभावः अस्ति परन्तु तस्मिन् सामर्थ्यमस्ति साधनां कृत्वा देवतां भवितुं देवता भवितुं तस्य तस्मिन् सामर्थ्यं वर्तते एतदेव मया यदुक्तं तस्मासु तत्र सा बहवः बह्व्यः सम्भावनाः सन्ति परमात्मनि यादृशसम्भावनाः शक्तयः सन्ति तादृशसम्भावनाः शक्तयः अस्मासु अपि सन्ति यदा वयं प्रयत्नं कुर्मः तदानीं देवः अपि भवितुम् अर्हामः तर्हि प्रत्येकं मनुष्यस्य भविष्यः उज्ज्वलः अस्ति प्रत्येकस्मिन् मनुष्ये सामर्थ्यं वस्ति अग्रगतिं प्राप्तुम् अतः वयं प्रयत्नशीलाः भवामः अग्रगतिं प्राप्तुं तर्हि अस्माकं समाजे अस्माकं दृष्ट्या कोऽपि पुरुषः पापी अस्ति कोऽपि पुरुषः पुण्यवान् अस्ति एतादृशभेदभावः अस्माकं दृष्टौ भवति समाजे एतादृशभेदभावः भवति परन्तु परब्रह्मणः दृष्ट्या सर्वे समानाः तस्य दृष्ट् तस्य तस्य दृष्ट्या साधुः नास्ति कोऽपि पापी नास्ति इत्युक्ते तत्र सर्वे तु तस्मादेव एव आविर्भूताः तेषां कुव्यवहारात् कुसंस्काराः सन्ति तेषु तथापि परमान परमात्मनः दृष्ट्या सर्वे समानाः कोऽपि पशुः भवितुमर्हति कोऽपि देवः भवितुमर्हति मनुष्ये यादृशभावना तद्वत् सः भवति परन्तु परमात्मनः दृष्ट्या सर्वे तु समानाः यदि कोऽपि प पुरुषः मनुष्यशरीरं प्राप्य अन्तः मनः तु पशुवत् अस्ति चेत् तस्य परमपुरुषः अस्ति प पशुपतिः तस्य परमात्मा अस्ति पशुपतिः पशूनां पतिः इत्युक्ते इदानीं मनुष्याः पशुवत् व्यवहरन्ति चेत् तर्हि परमात्मा तस् ते तादृशपुरुषैः सह तादृशमनुषैः सह अपि परमात्मनः सम्बन्धः वर्तते सः भवति प तर्हि इदानीं यदा प्रथमस्तर प्रथमस्तरात् कोऽपि यस्य अन्तश्चक्षुः उद्घाटितं सः साधनायां प्रवेशं प्राप्नोति तत्र परमात्मनां परमात्मानं प्रति भक्तिभावः जागरितः भवति तर्हि तस्य इदानीं तस्मिन् वीरभावः प्रकाशितः अस्ति वीरभावः प्रकाशितः अस्ति यदा वीरभावः प्रकाशितः अस्ति तर्हि तत्र तस्मिन् ईश्वर ईश्वरं प्रति प्रेमभावः जागरितः भवति तस्मिन् शक्तिः अपि वर्धते तर्हि परमात्मनः कृपया सः पुरुषः पुरुषे वीरभावः लभ्यते इदानीं तादृशपुरुषेण सह अपि परमात्मनः सम्बन्धः वर्तते तर्हि तादृशपुरुषस्य कृते परमात्मा भवति वीरेश्वरः वीराणाम् ईश्वरः प्रथमस्तरे तु पशुपतिः आसीत् इदानीं सः वीरेश्वरः अस्ति यदा तत्र साधनायाम् अग्रगतिः भवति विवेकस्य विचारस्य जागरणं भवति तस्मिन् विवेके विचारे सः प्रतिष्ठितः भवति तदानीं सः देवता भवति एतत् सर्वं तु परमात्मनः कृपया एव भवति तर्हि यदा देवभावः जागरितः भवति तदानीम् अपि परमात्मना सह तस्य पुरुषस्य तस्य मनुष्यस्य सम्बन्धः वर्तते तदि तर्हि तादृशपुरुषाणां कृते परमेश्वरः कथं भवति इति चेत् सः भवति महादेवः देवानां देवः इति कृत्वा प्रत्येकं प्रत्येकं प्रत्येकस्मिन् जीवे परमात्मा वर्तते प्रत्येक प्रत्येकेन किं जीवेन परमात्मनः सम्बन्धः वर्तते एव तर्हि प रूपेन सम्बन्धः भवेत् अथवा वीरेश्वररूपेण सम्बन्धः भवेत् अथवा महादेवरूपेण सम्बन्धः भवेत् यस्मिन् कस्मिन् स्तरे वयं स्मः तदनुगुणं तत्र परमात्मनः सम्बन्धः प्रत्येकं जीवेन सह सम्बन्धः वर्तते यदि अधमस्तरे वयं स्मः तदानीं पशुपतिः यदा किञ्चित् अग्रगतिः भवति वीरभावः अस्ति चेत् वीरेश्वरः इतोपि अग्रगतिः भवति चेत् तदानीं महादेवः तर्हि यदा दिव्यभावे कोऽपि प्रतिष्ठितः भवति यदा यदा मनुष्यः देवः भवति दिव्यभावे प्रतिष्ठितः भवति चेत् तदानीं सः सः मनुष्यः अन्ततो गत्वा परमात्मा एव भवति परब्रह्म एव भवति यदा दिव्यभावे प्रतिष्ठितः भवति तदानीं सः परमात्मा भवति अतः अस्माभिः साधना करणीया अग्रगतिम् अग्रगतिः प्राप्तव्या तर्हि अस्माकं भूतकाले यत्किमपि जातं तस्य विषये चिन्तनं न करणीयम् इदानीम् अतीत अती अतीतकालः अतीत तु गतः तर्हि तस्य विषये चिन्तन चिन्तनेन कोऽपि लाभः नास्ति इदानीम् अद्य इदानीम् अग्रगत्यर्थं यद्यपि पूर्व पूर्वकाले मया पापः पापं कृतं परन्तु इदानीं मम चक्षुः उद्घाटितम् इति कृत्वा अग्रगत्यर्थम् अहम् इदानीं प्रयासं करोमि पूर्वं यत्किमपि जातं तस्य विषये चिन्ता नास्ति तर्हि इदानीं परमात्मानं प्रति आत्मसमर्पणं कृत्वा शरणागतिभावं प्राप्य वयमग्रगतिं प्राप्तुं शक्नुमः तर्हि यदा साधनाद्वारा परमात्मानं प्रति प्रेमभावः जागरितः भवति तदानिं सर्वं लब्धं प्रेमभावः यदा जागरितः भवति तदानीं सर्वं लब्धं तर्हि तत्र यः ब्रह्मवित् अस्ति सः ब्रह्म एव भवति ब्रह्मवित् ब्रह्म एव भवति तर्हि इदानीम् क्रमेण अस्माकं विकासः जायमानः अस्ति अतः तत्र अन्ततो गत्वा किं वक्तव्यम् इति चेत् अस्माकं यद् सामर्थ्यं वर्तते सम्पूर्णसामर्थ्यं वर्तते तस्य प्रयोगः अस्माभिः न क्रियते तर्हि तादृशसम्पूर्णसामर्थ्यस्य प्रयत् प्रयोगार्थम् अस्माभिः यत्नः करणीयः क्रमेण अस्माकं विकासः भवति पशुव्यवहारात् पशुमनः यदस्ति प्रथमस्तरे तदनन्तरं मनुष्यमनः तदनन्तरं दिव्यमनः भवति यदा दिव्यमनसि वयं प्रतिष्ठितः भवामः तदानीं मानसातीतः वयं मानसातीताः वयं ब भवामः इत्युक्ते तत्र अन्ततो गत्वा अस्माभिः तीव्रतीव्रभक्तः यदा वयं भवामः तदानीम् अग्रगतिः अवश्यं भवति तव तत्त्वं न जानामि कीदृशो अस्ति असि महेश्वरः यादृशो असि महादेवः तादृशाय नमो नमः इत्युक्ते परमात्मनः सम्पूर्णतत्त्वं वयं ज्ञातुं न शक्नुमः भवान् कीदृशः अस्ति इति अहं न जानामि तव तव तत्त्वम् अहं सम्पूर्णतया न जानामि भवान् कीदृशः असि इति त्वं कीदृशो असि इत्युक्ते अत्र त्वम् इति वदति अत्र त्वम् इत्युक्ते तत्र प्रेमभावः प्रीतिभावः इत्युक्ते कोऽपि दूरे कोऽपि नास्ति मम पार्श्वे अस्ति मम पुरतः अस्ति परमात्मा त्वं कीदृशः असी महेश्वरः इति अहं न जानामि यादृशो असि महादेवः तादृशाय नमो नमः भवान् कीदृशः अस्ति इति अहं न जानामि तथापि भवान् यत्किमपि भवतु नाम तथापि तादृश पुरुषाय तादृशपुरुषाय नमो नमः इति अत्र तत्र श्लोकस्य विषयः अस्ति अस्तु तर्हि अत्र एवमुक्त्वा अस्माकं करपत्रं प्रति गच्छामः मनुष्याः लोके कथं भवेयुः इत्येव विचारः प्रवर्तमानः अस्ति अस्माभिः किम् उक्तम् आसीत् इति चेत् तत्र मनुष्यजन्मनि यत्किमपि कर्म वयं कुर्मः तस्य तु प्रतिफलनं भवति कर्मफलम् अवश्यं भवति यत् कर्म कुर्मः तस्मात् संस्काराः भवन्ति तादृशसंस्कारात् मुक्तिः कदा भवति इति चेत् आध्यात्मिकजीवने अग्रगतिः भवति चेदेव तत्र तस्मात् मुक्तिः भवितुम् अर्हति संस्काराः नष्टाः भवन्ति परन्तु यावत्पर्यन्तम् अहमेव कर्ता अहमेव भोक्ता इति व्यवहारं वयं कुर्मः तावत्पर्यन्तम् अस्माकं पूर्वजन्मसंस्काराणां प्रतिफलनम् अवश्यं भवति अस्माभिः अवश्यं भोक्तव्यं कर्मफलानां भोगः अवश्यं भवति तस्मात् मुक्तिः नास्ति परन्तु केचन प्रयत्नं कुर्वन्ति तत्र कर्मफलानां नाशार्थं प्रयत्नं कुर्वन्ति तत्र किमस्ति तत्र तन्त्राणां प्रयोगं कुर्वन्ति गृहशान्तिं कुर्वन्ति ब बहुकिमपि कुर्वन्ति तेन किं भवति इति चेत् तत्र कर्मफलस्य कर्मफलस्य भोगः तत्र समयस्य एव परिवर्तनं भवति शीघ्रं कर्मफलस्य प्राप्तिः भवति अथवा किञ्चित् कालान्तरेण कर्मफलस्य प्राप्तिः भवति अतः वयं चिन्तयामः कर्मफलस्य प्राप्तिः नास्ति इति वयं चिन्तयामः परन्तु तथा नास्ति यत्कृतं तस्य कर्म कर्मफलं भवति तस्य भोगः अस्माभिः अवश्यं कर्तव्यम् एव एतादृश या एतादृशगृहशान्त्या वा अन्यमार्गेण तन्त्रमार्गेण वा तस्य सम्पूर्णतया कर्मफलानां नाशः न भवति यथा कोऽपि अधमरणः अस्ति तेन ऋणं स्वीकृतं चेत् इदानीं शतं रूप्यकाणि तेन ऋणं स्वीकृतं चेत् तेन यता तत्र उत्तमरणः अस्ति तेन यता उक्तं तदन अनुगुणं तेन प्रति दातव्यं भवति ऋणम् परन्तु इदानीं यदि उत्तमरणः वदति ओ एव मास्तु प्रत्येकस्मिन् दिने एकं रूप्यकं रुपय, ददातु अथवा एवं तत्र कालस्य परिवर्तनं करोति तेन तत्र किञ्चित् लाभदायकम् अस्ति परन्तु अन्ततो गत्वा तादृशपुरुषेण येन ऋणं स्वीकृतं तेन तु अन्ततः गत्वा शतं रूप्यकाणि प्रत्यर् प्रतिदातव्यम् एव तस्मात् तु मुक्तिः नास्ति एवं यदा अस्माभिः कर्म क्रियते तस्मात् फलम् अवश्यं लभ्यते तादृशफलस्य भोगः अस्माकम् अवश्यं भवति अतः एतादृशग्रहशान्त्या अथवा अन्यमार्गेण तस्य सम्पूर्णतया नाशः भवितुं नार्हति इति अत्र एतावता अस्माभिः दृष्टमासीत् इदानीं ततः अग्रे वयं भगिनी पठति वा आर्ये कस्मिन् पाठे पशुपतिः वीरेश्वरः महादेवः अस्ति एतद् मया शुतम इति कृत्वा मया उक्तं मया महोदयतः श्रुतमासीत् इति कृत्वा मया उक्तम् ओहो अस्तु भगिनी अपि भवती उक्तवती जीव जीवे परमात्मा अस्ति जीव अपि परमात्मा एव अस्ति पिण्डे पिण्डे ब्रह्माण्ड इति उक्तिः अस्ति आमाम् सत्यं वयं जानीमः खलु परमात्मा एव सामग्री अस्ति इति वयं जानीमः अस्तु यथा ग्रहशान्तेः साहाय्येन प्रतिक्रियाणाम् अनुभवा अनुभव अवधेः वर्धनं सम्भवति तथा अस्याः प्रतिक्रियाणाम् अनुभवाधे मीन् अनुभव अधि किमस्ति अनुभव अवधे अवधि षष्ठी स अस्ति न्यूनीकरणम् अपि सम्भवति यथा ग्रहशान्ति साहाय्येन प्रतिक्रियाणाम् अनुभव अवधेः वर्धनं सम्भवति तथा अस्याः प्रतिक्रियाणाम् अनुभव अवधेः न्यूनीकरणं भवति सम्भवति अतः अवगच्छामि यथा उदाहरणत्वेन <coughs> केचन जनाः प्रतिक्रियाणाम् अनुभवस्य पद्धतिं परवर्तयि परावर्तयितुं भिन्नानि शिलानि यथा नीलमण्यादीनि धारयन्ति सम्भवति यत् एतेन कश्चन धनभाग्ययोगे पुरस्कारं प्राप्य भाग्य प्राप्त प्राप्त अथवा नियोगे पदोन्नति प्राप्त अन जवास येत गृहशा अभवतु वस्तु तथा नाग्यम अथवा स्वयं कर्मण परिणाम अनुभवस्य परिमाणम् न पर, पर् परिवर्तयितुं न च निवारयितुं शक्यते परेषाम् सुखप्रदानि कर्माणि स्वस्य कृते समानपरिमाणे मानसिकरूपेण सुखं जनयन्ति इति पूर्वम् व्याख्यातम् सुखस्य आनन्दस्य च अनुभवस्य परिमाणम् परिवर्तयितुं न शक्यते केवलं तस्य सुखस्य आनन्दस्य च अनुभवाय आवश्यकः समयः वर्धयितुं न्यूनीकर्तुं वा शक्यते पुनः पञ्चाशत् अधिक एकशतं रूप्यकाणि रु, शेपस्य उदाहरणं गृहीत्वा गृ, गृ, वयं पश्यामः मासे प्रतिदिनं पञ्चरूप्यकाणां मूल्यनेन व्ययितुम् अभिप्रेतं यत् धनम् तत्क दिने व्यय अवधि लघ्वीकृत मसल से शेषाण नव विंशति दिना कि व्ययीकर्क्य गृहशा भाग्यपरीवर्तन से सदृशम था उदाहष सहसूप्य धनभाग्योगे पुरस्कार नीलरत्न प्रभाव प्राप्त एतत धनम तो तुष सेनम दीर्घकाग प्राप्त निर्धारित आसधन एक शेष भाग कि न अवशिष्य सद महतीशि प्राप्य कशन विश्वास कौती यहा अथवा नीलरत्न धारणेन भाग्यम पिवर्त अस्मिन् परिच्छेदे यथा वयं गतसप्ताहे पठितवन्तः तत् यत् कर्मस्य प्रक्रिया अस्ति कर्म प्रक्रिया अस्ति या कर्मफल अस्ति तत् तत् जीवे एव भोक्तव्यं भवति अन्य कोऽपि तस्य न कर्तुं शक्नोति अपि भव प्रयासः करोति यथा उपासना कर्म यज्ञयाग वा अथ अत्र नीलमणि इति दस्यति केपि प्रयोग कृत्वा यथा ज्योतिष वदन्ति इति यदि भवारयतु तस्य भाग्यं च परिवर्तनं भवति इति यदि कर करोति तु गृह गृहशान्तिः अस्माभिः इति ज्योतिषं वदति गृहस्य नक्षत्र इति समीचीनं दिशायां नास्ति अथ कोऽपि पीडा वा दुःख शारीरिक वा मानसिक वा इति व्यव व्यवस्था इति अस्ति तस्य तत् पलायितुं वयं भवतान्त्रिक आ, वा अन्यानि प्रयासं कुर्मः को किन्तु कोऽपि प्रयत्नः कुर्मः किन्तु यत् अस्माभिः भोक्तव्यं भवति इति शनैः शनैः भवति वा यथा पूर्वं त्वरितं भवति वा मन्दं भवति इति तु आगच्छति एव यत् वयं प्रयासं कुर्मः अत्र दत्तमस्ति तस्य पूर्णतया शान्तिं न शान्तं न भवति किन्तु तस्य किञ्चित् प्रभावः इति न्यूनं भवति किन्तु सम्पूर्णतया तस्य प्रभावः न अपगच्छति अस्ति परि परि तस्य यत् कर्मफलस्य परिमाणम् अस्ति तत् अस्माभिः एव भोक्तव्यं भवति समानपरिमाणे मानसिकरूपेण सुखं चलति इति पूर्वं यास इति मनुष्य इति मन्ये तत् दा, मन्यते यत इति यत् अहम् इति कर्म कृतवान् कर्मकाण्डं यत् वयं वदामः उपास्ना वा नीलमणि इति गृहीतवान् तस्य कारणेन मम भाग्यस्य परिवर्तनम् अभवत् इति यत् इत, तस्य परिमाणम् अस्ति कारणके नीलमणि इति स्वीकृतवान् इति सः मन्यते किन्तु इति तु नास्ति सुखस्य आनन्दस्य अनुभवस्य परिमाणं इति अस्माभिः न परिवर्तनं कर्तुं शक्यते सुखस्य आनन्दस्य यत् भागं यत् परि कर्म प्रक्रियायां दत्तमस्ति तदेव अस्माभिः गृहते अन्य उदाहरणमस्ति यदि वयं रूप किञ्चित् के, ऋणं वयं स्वीकृतवन्तः तत् वय अस्माभिः दा, प्रतिदास्यम् एव यदि न प्रतिदास्यमः तस्य यत् परिमाणम् अस्ति तत् अपि अस्माभिः एव भोक्तव्यं भवति किन्तु यथा अत्र दत्तमस्ति इति अहं न अवगच्छामि पञ्चपञ्चरूप्यकाणि एकम् एकं दिने इति दातव्यं जनं प्रति इति अस्ति किं दत्तम् अस्ति इति अवधे अवधेः विषयः एव अस्ति भगिनि अवधेः विषयः अस्ति यदि तत्र किञ्चित् किञ्चित् रूपेण दद्मः सम्पूर्णतया दातुं शक्यते सम्पूर्णतया दातुं शक्य शक्यते न किन्तु अवधि इति केवलम् अवधेः परिवर्तनम् अस्ति तावदेव हा केवलम् अवधेव किन्तु अवधेः न्यूनीकरणं वा अधिक अधिककरणं तावदेव इदानीं कालस्य परिवर्तनं तावदेव कालस्य केवलं परिवर्तनं भवति किन्तु यत् अस्माभिः दातव्यं ऋणं यदि अध यत् अति तेन दात दात तासी तासी तास ते, तु दत् दातव्यमेव भवति साधुतेन आमां तदेव अत्र विषयः अस्ति अस्ति यद् दातव्यं तद् दातव्यमेव तस्य तत् न्यूनी न भवति किमपि करोमि किन्तु यद् दातव्यं तद् दातव्यमेव अपि इण्ट्रेस्ट् दातव्यं भवति आमामाम् आमां तदस्ति इति एव अस्ति अस्माकं कर्मफलस्य यत् परिमाणम् अस्ति तत् अस्माभिः एव भोक्तव्यं भवति केन केपि प्रयासं कुर्मः तस्य यत् प्रभावः भवति अनेन किञ्चित् न्यूनं भवति प्रभावः किन्तु सम्पूर्णतया तत् प्रभावः न अपगच्छति केवलं मानसिकम् इति अवगच्छति अपि यदि वयं लाट्रि इति प्राप्नुमः आप्नुमः अपि अस्माक अस्माकं यत् कर्मफलम् अस्ति तस्य कारणे एव वयं प्राप्नुमः लाट्रि आप्नोति तत् एकसमये एक अधिकराशिः प्राप्नोति किन्तु कोपि अन्यजनाः किञ्चित् किञ्चित् न्यूनं न्यूनं राशि अधिकसमयपर्यन्तं प्राप्नोति इति एव भेदः अस्ति इति नास्ति कारणके अहं यज्ञकृतवान् वा ज्ञानं दत्तवान् वा किमपि ज्योतिषं यत् उक्तवान् तादृशी कृतवान् वा वस्तु आधारेण व्यवहारं परिवर्तवान् अनेन मम लाट्री प्राप्नु प्राप्य आगतम् इति नाम इति अस्ति किञ्चित् एकम् एक आम, आमामाम् इत्युक्ते अत्र अत्र किम् उक्तमिति चेत् अन्ततो गत्वा किं विषयः कः इति चेत् यद् कर्म कृतं तस्य फलम् अस्माभिः अवश्यम् अनुभोक्तव्यमेव तस्य सम्पूर्णतया निवारणं न शक्यते एतादृशगृहशान्त्या वा अन्यमार्गेण यथा नीलरूप नीलमणेः धारणं वा यत्किमपि भवतु तेन वयं किं कर्तुं शक्नुमः कालावधेः परिवर्तनं कर्तुं शक्नुमः परन्तु सम्पूर्णतया कर्मफलस्य नाशं कर्तुं न ना शक्नुमः इति अत्र वा वार्ता अस्ति यथा शतरूप्यकाणि वयं स्वीकुर्मः चेत् तत्र एकेन दिनेन वयं प्रत्यर्पं द प्रत्यर्पणं कर्तुं अथवा कालान्तरेण इन्स्टाल्मेण्ट् रूपेण अपि कर्तुं शक्नुमः परन्तु ए, एक एकवारमेव प्रत्यर्पणं कुर्मः तदानीम् अस्माकं क्लेशः भवति यतोहि तत्र बहु सङ्घर्षः कर्तव्यः यतोहि अस्माकं पार्श्वे धनं नास्ति इति कृत्वा एव ऋणं स्वीकृतं अतः एकवारमेव द दातव्यं चेत् क्लेशः भवति परन्तु किञ्चित् किञ्चित् दद्मः चेत् तथापि सम्पूर्णतया अस्माभिः दातव्यं तत्र किञ्चित् किञ्चित् दद्मः चेदपि अस्माकं कश्चन क्लेशः तु भवति एवं रीत्या गृहशान्तिद्वारा कालावधे अवधेः परिवर्तनं भवितुमर्हति सम्पूर्णतया कर्मफलस्य नाशः न भवितुम् अर्हति इत्येव अत्र वार्ता अस्ति अस्तु अग्रे गच्छति वा भगिनी वस्तुतः भाग्यम् अथवा प्रतिक्रियाणाम् कर्मफलानाम् अनुभवः कदापि न शक्यते केवलम् प्रतिक्रियाणाम् अवधि एव परिवर्तयितुम् शक्यते अत एव ये मुक्तिप्राप्ति अभिप्रायेण साधनाम् कुर्वन्ति ते च सुखं हर्ष च वेदना अनेन ते अल्पे काले यहां अनुभवं संपन्न कुरानी ये मोक्ष कामि मुक्न जीवने अतः ते स्वेच्छा संभाव संभाव्य प्रतिक्रिया संस्कारैः शीघ्रमेव सर्वम् अनुभवन्ति अनेन भविष्यजीवने किमपि न अवशिष्टं भवति ते च प्रकृतिबन्धनात् मुक्तिं प्राप्नुवन्ति तो इति अस्ति अत्र दत्तमस्ति यदि वयं कर्मफलस्य अनुभव स्वीकुर्मः तस्य हर्षभावेन एव स्वीकृ स्वीकृत्यवयः अति वयं हर्षभावेन न किन्तु इति स्वीकरोमः स्वीकुर्मः तत् अस्माभिः यद् अस्ति तस्य दुःखस्य न्यूनी भवति अपि सुखस्य वेदना यत् अस्ति यत् इति यः मुक्तिः इच्छति सः किमपि यत् अस्ति संस्कारेण तस्य जन्म इदानीं ारब्धः अस्ति तत्प्रारब्धस्य सः इति अपोसिशन् न करोति इति भवति सः स्वीकारं करोति यत् तस्य प्रारब्धः अस्ति तत् प्रारब्धे व्याधिः अस्ति दुःखम् अस्ति वा धनस्य कष्टम् अस्ति किमपि अस्ति तत् स्वीकरोति यस्य प्र, प्रभु इच्छा एव स्वीकर्त कृत्य तस्य साधना इति प्रचल अ, साधना न्य साधनायां पूर्णतया पूर्णतया सा पालनं करोति साधना तीवति शीघ्रमेव मम सर, सर्वे संस्कार मुक्तिः यदि प्राप्नोमि तदा एव अहम् अग्रे ईश्वरं प्रति गन्तुं शक्नोमि इति भावनायाः सः तस्य जीवनं चालय यत, चालयति इति अस्ति तत्र भविष्ये कोऽपि अवशिष्ट संस्कारः न भवेत् कर्म करोति तस्य कर्मफल न तस्य कर्मफलम् अपि न भवेत् इति तस्य mm. यासः भवति इदानीं मोक्षप्राप्ति कृते आमाम् आम् समीचीनं भगिनी इत्युक्ते यथा अस्माभिः अत्र एतावता उक्तं गृहशान्त्या वा अथवा तत्र अन्यमार्गेण तन्त्रमार्गेण वा तत्र पाषाणखण्डस्य ग्रहणे नीलमणेः धारणेन वा अथवा भिन्नभिन्नमार्गेण जनाः प्रयत्नं कुर्वन्ति कर्मफलानां भोगस्य परिवर्तनं कथं कर्तुं शक्यते कर्मफलानां नाशार्थं प्रयत्नं कर्तुं प्रयत्नं जनाः क्रियन्ते तर्हि प्रयत्नः क्रियते जनाः जनैः तर्हि अत्र किं भवति इति चेत् तथापि एतादृशकर्मफलानां नाशः न शक्यते संस्काराणां नाशः न शक्यते प्रकृतेः नियमानुगुणं सर्वं प्रचलति तर्हि तत्र अत्र अस्मिन् अत्र किमुक्तमिति चेत् ये जनाः मुक्तिमार्गे सन्ति साधनां कुर्वन्ति तेषां कृते किं भवति इति चेत् प्रारब्धकर्म यदस्ति तस्य झटिति नाशः भवति ते, ते शीघ्रमेव दुःखं सुखं यत सर्वम् अनुभवन्ति अल्पकाले एव संस्काराणां नाशः नाशः भवति अतः तेषाम् अग्रगतिः अपि सुलभेन अग्रगतिः अपि भवति तर्हि सामान्यतया किं भवति इति चेत् यद् कर्म अस्माभिः कृतम् अस्मिन् जन्मनि अपि च पूर्वजन्मनि येषां संस्काराणां नाशः न ना जातः चेत् तर्हि अस्माकं पुनर्जन्म भवति तर्हि अग्रिमजन्म जन्मनि तादृशसन्दर्भे तादृशपरिस्थितौ अस्माकं जन्म भवति यत्र एतादृशसंस्काराणाम् अभुक्तसंस्काराणां व्यक्तीकरणार्थं सम्भवः अस्ति व्यक्तिकरणार्थं परिस्थितिः सम्यक् अस्ति तादृशसन्दर्भे एव अस्माकं जन्म भवति परन्तु यदा कोऽपि यदा कोऽपि मनुष्यः साधनां करोति यस्य मनः परमात्मनि विलीनः अस्ति सः परमात्मानं प्राप्तुं प्रयत्नं करोति अग्रगतिम् अपि प्राप्नोति तर्हि तस्य कृते किं भवति इति चेत् पूर्वजन्मिनि ये संस्काराः सङ्गृहीताः तेषां अस्मिन् जन्मनि एव तेषां सर्वेषां संस्काराणां नाशः भवति तदेव दग्धबीजावस्था इति वदन्ति तत्र संस्काराणां संस् सम्पूर्णतया दहनं भवति इति अत्र उक्तं तर्हि संस्काराणां नाशार्थम् एकः एव मार्गः अस्ति साधनामार्गः अनेन संस्काराणां दहनं झटिति भवति अतः ये जनाः योगनिष्ठजीवने व्यस्ताः सन्ति ये जनाः जनसेवां कुर्वन्ति अनन्तरं साधनामपि कुर्वन्ति तर्हि तेषां कृते मनश्शुद्धिः झटिति भवति अपि च पूर्वजन्मसंस्काराणां नाशः अपि शीघ्ररूपेण भवति भगिनी कथं वदामः यत् प्रारब्धः अस्ति तस्य प्रति रियाक्टि न भवति अतः संस्कृते कथं कथं वद some people are very reactive to their uh, destiny whatever they get it and that's how they get more and more karma and then again agami karma they develop etit reactive ite yadi tatra aham eva karta aham eva bhoktai iti cintayamaha je tadanim tatra puna purva punaha karma puna sanskaraha jayante kala यावत्पर्यन्तं पृथक् अस्तित्वम् अस्ति अहं भिन्नः अस्मि इति पृथक् अस्तित्वम् अस्ति तावत्पर्यन्तं संस्काराः जायन्ते इत्येव प्रश्नः वा भगिनी सपोस् फार् एक्साम्पल् ऐ नो वन् आफ़् मै ्रेण्ड् हू ग स्ट्रोक्न् शी ग सेकेण्ड् स्ट्रोक् शी इोट् टु डै ऐिङ्ग् सो शी कीस् क्राइङ्ग् सो इटिनी लैक् वाट् डेस्टिनी यु हे accept it and then uh, yes whatever i have it i will take it and then let my karma get over so that reactive how would you say that uh, that's the you know to accept, accept the to accept Absolving? the karma yes, yourself that accept in the destiny as it is yeah tatra bhagyasya swikaraha bhagyasya swikaraha atva sanskaranam swikaraha kalo ah swikara aitite tatra swikara swikaram vina tatra margaha nasti मार्गः नास्ति अस्माभिः स्वीकर्तव्यमेव भोगः एव भवति परन्तु तत्र कथं भोक्तव्यं कर्म कर्मफलानां भोगः कथं कर्तव्यम् इति चेत् यदा इत्युक्ते यद् यः पुरुष यः मनुष्यः आध्यात्मिकजीवने प्रविष्टः तस्य कृते सः कर्ता शरीरः भोक्ता शरीर एव अहं भोक्ता नास्मि किन्तु शरीर एव भोगं प्राप्नोति इति अस्ति आ, अस्नी, अस्नी हा इत्युक्ते यत्किमपि जायते तत्तु अहं परमात्मनः यन्त्रः यन्त्रमस्मि अस्मि इति तादृशभावः भवति यः आध्यात्मिकजीवने अस्ति तस्य कृते दुःखं नास्ति सुखं नास्ति यतोहि सः जानाति एतत् सर्वं तु परमपुरुषस्य लीला अस्ति इति कृत्वा सः सर्वं इत्युक्ते तत्र तस्य मनसि सुखं वा खेदं वा न भवति परन्तु यः मनुष्यः आध्यात्मिकजीवने नास्ति सः एतावता स चिन्तयति सः कर्ता स भोक्ता इति एवं रीत्या चिन्तयति तदानिम तस्य कृते दुःखं सुखं सर्वं भवति यथा अन्य अन्यविषयस्य कृते दुःखं सुखं भवति एवं रीत्या व्याधिः भवति चेदपि दुःखं भवति खलु uh -huh. व्याधिः भवति चेत् दुःखं भवति तदानीं तत्र इत्युक्ते तादृश अवस्थायां कोऽपि मनुष्यः एवं वक्तुं शक्नोति मम व्याधिः अस्ति अहम् इतः अग्रे लोके जीवितुं न इच्छामि मम मरणं भवतु मम मुक्तिः भवतु अहं जीवितुं न इच्छामि एतादृशभक्तिः अपि सात्विकीभक्तिः इति वक्तुं शक्नुमः यथा अस्माभिः दृष्टं पूर्वम् mm -hmm. इत्युक्ते मम मम शरीरे शक्तिः नास्ति तत्र लोके यः यः भोगः अस्ति तादृशभोगस्य अनुभवार्थं मम शरीरे शक्तिः नास्ति अतः इतः अग्रे मम जीवनमेव मास्तु मम मरणं भवतु मम मुक्तिः भवतु इति सः प्रार्थयति तर्हि तादृशभक्तिः सात्विकीभक्तिः तदपि वास्तविकी भक्तिः नास्ति खलु तदपि वास्तविकीभक्तिः नास्ति इत्युक्ते दुःखम् अस्ति मनसि एतावता अहं किमपि कर्तुं शक्नोमि लोके जनाः सम्यक्तया जीवन्ति सुखम् अनुभवन्ति अहं सुखं न अनुभोक्तुं न शक्नोमि अतः तस्य मनसि खेदः अस्ति दुःखम् अस्ति अतः सः प्रार्थनां करोति तत्र सः परमात्मानं प्रति हे परमात्मा अहं मुक्तिम् इच्छामि इति चेत् यतोहि भोगं कर्तुं न शक्नोमि सः परमात्मा अस्ति इति अङ्गीकरोति अनन्तरं वद अनन्तरं वदति हे परमात्मा भवान् अस्ति अहम् इतः इतः अग्रे भोगं कर्तुं न शक्नोमि इतः अतः अहं मुक्तिम् इच्छामि इति सः प्रार्थयति इति एतादृशभक्तिः सात्विकीभक्तिः अस्ति एतादृशभक्तिः अपि वास्तविकीभक्तिः नास्ति खलु इति वा प्रश्नः भवत्याः कथं सात्विकी भवति इत्युक्ते सः मुक्तिम् इच्छति खलु सः मुक्तिम् इच्छति अहं जीवितुं न इच्छामि अहं शरीरस्य न तु न तद् न जानामि शरीरस्य मुक्तिम् वा अहं मुक्तिम् इच्छामि अहं लोके जीवितुं न इच्छामि अहं मुक्तिम् इच्छामि इति सः वदति खलु इत्युक्ते शरीर शरीरस्य मुक्तिः एव भवतु इति अहम् इदानीं अधिकं सेतुं न शक्नोमि इति तस्य अहम् एत इतः अग्रे सोढुं न शक्नोमि लोके भोगं भोगं कर्तुं न शक्नोमि इति कृत्वा मम मुक्तिः भवतु इति सः प्रार्थनां करोति हे परमात्मा मम मुक्तिः भवतु इति प्रार्थनां करोति शरीरात् मुक्तिः वा तत्र स न जानाति सः केवलं मम मुक्तिः भवतु इति सः वदति अस्तु इति इति तत्र प्रार्थना तत्रापि तत्र तत्रापि भक्तिः अस्ति खलु परमात्मा अस्ति इति अङ्गीकरोति अनन्तरं सः एवं वदति मम मुक्तिः भवतु इति वदति एतादृशभक्तिः अपि उच्चभक्तिः नास्ति यतोहि सः किमर्थम् एवं वदति परमात्मानं प्राप्तुं सः न वदति एवं सः लोके जीवितुं न इच्छति इति कृत्वा एवं वदति अतः एतादृशभक्तिः अपि समीचीनः समीचीना भक्तिः नास्ति तत्र केवला भक्तिः एव समीचीना केवला भक्तिः इत्युक्ते अहं किमपि न इच्छामि केवला भक्तिः इत्युक्ते अहं किमपि न इच्छामि अहं केवलं परमात्मानम् इच्छामि तावदेव अन्यत् किमपि न इच्छामि लोके यत्किमपि भवतु तस्य इच्छा नास्ति अस्तु किन्तु राजसि राजसिकभक्तिः भवेत् किमर्थं चेत् कामः अस्ति इति कामः अस्ति चेत् राजसिकीभक्तिः सत्यम् कामः लोकविषयाणां प्रति कामः अस्ति मम पुत्रः भवतु मम मम धनं भवतु मम एतद् भवतु तद् भवतु इति एतादृश प्रार्थना यदा भवति तत्तु राजसिकीभक्तिः अस्ति तामसिकीभक्तिः इत्युक्ते मम शत्रुः यः अस्ति तस्य मरणं भवतु इति यदा तत्र सः हे परमात्मा मम यः शत्रुः अस्ति तस्य मरणं भवतु इति सः प्रार्थनां करोति तदानीं तत्तु तामसिकी भक्तिः एतत् परिषदं पठितवन्तः आमाम् एतत् पठितवन्तः अत्र स्पष्टमस्ति इति मन्ये तद्भिः अग्रे अग्रे गच्छति वा आमां केचन मन्यन्ते यत् अशुभकर्मभिः सङ्गृहीता ये परिणामाः सन्ति तेषाम् क्षतिपूर्तिः वा प्रक्षालनम् सत्कर्मभिः अर्जितेन सत्फलैः भवति इति तेषाम् वते यदि दुष्कृतम् सत्कर्म च समानम् स्यात् तर्हि किमपि अवशिष्टम् न भवेत अनुभवार्थम् अनुभवार्थम् एतत् न भवति न सम्भवति च शुभाशुभ शुभा अशुभानि सर्वाणि कर्माणि मनसि विकृतिं जनयन्ति इति पूर्वं दृष्टं मनस सामान्यरूपं प्राप्तुं विकृतिः सामानविपरीतप्रतिक्रियाद्वारा निष्कासिता भवति अथ दुष्कर्मभिः जन्याः विकृतिः सत्कर्मभिः दूरीकर्तुं न शक्यते यतः तानि केवलं मनसि अधिकं विकृतिं जनयन्ति प्रत्येकं कर्मणः स्वतन्त्र स्वतंत्रता सामना विपरीता चक्रिया भवि यदा प्रत्येक विकृति स्वतंत्र प्रतिक्रिया निष्का तदा शुभा अशुभा शुभ अशुभकर्माण पिणा पृथक पृथक अतव्या अतः दुष्टकर्म्य ये दुष्टपरिण उत्पन्ना तेज्य पिणाभ्य यदुखम जायते तुखम सत्कर्म फफलाना पिहर्म न शक्य दुष्कृता दुष्परिणमा सत्कर्माण सत्परिणा अस्म पृथक् पृथक अव्या एक प्रकृति केवलं मन्यन्ते अशुभकर्मभिः सङ्गृहीता ये परिणामाः सन्ति ते तेषां शक्तिपूर्तिः प्रक्षालनं सत्कर्मभिः अर्जितेन तत्फलैः भवति इति यदि कोऽपि अशुभकर्म करोति तेषां यत् भव भवति अशुभकर्म तस्य परिणामं यद् भवति तस्य सतीपूर्तिः वा प्रक्षालं सत्कर्म तस्य यत् निवृत्ति निवारणम् इच्छति इति कृते सत्कर्मभिः यदि इति प्राश्चित् कृत्वा वा तस्य अशुभकर्म सत्कर्म दुष्कर्म सत्कर्मेकर्मणि इति परिवर्तति तु अनेन तस्य फलं सत्फलम् आगच्छति दुष्फलं न भवति इति अस्ति इत्युक्ते तत्र सत्कर्म दट् विल् बि न्यू कर्म हियर् टाकिङ्ग् अबौट् द पास्ट् कर्म यत् पूर्वं कृतं तत् सत्कर्म वा भवतु अशुभकर्म वा भवतु सत्कर्म कर्मणा अशुभकर्मणः नाशः न भवितुम् अर्हति अस्तु अस्तु ओके यत् फलं पूर्वमस्ति तत् भोक्तव्यम् एव भवति सत्कर्मणः इत्यस्य परिवर्तनं न भवति इति अस्ति आमाम् अस्तु तेषां मते यदि दुष्कृतं सत्कर्म च समानः स्यात् तर्हि किमपि अवशिष्टं न भवेत् अनुभव अर्थम् अहं चिन्तवती दुष्कृतं सत्कर्म इति समान स्यात् इति तो इति भवती आ, ये जनाः मोक्षं प्रति चलन् प्रचलन्ति सा तु तेषां स्थितिः लैकजीवन्मुक्त पुरुषः अस्ति तत् तस्य विषये न वदति अत्र अस्य विषये न वदति अत्र तु भ्रह्म आगच्छति मम मनसि किम् अस्ति अत्र न न इट् इस् नाट् सि सबडि एक् टेन् यूनिट्स् आफ़् पापा एण्ड् टेन् यूनिस्ट् आफ़् पुण्य इट् नाट् लैक् टेन् यूनिस् बोतो विल् गेट् आफ़् सटिन् यु डोण्ट् हाव् ए कर्मफल इट् नाट् लैक् देट् It's It's not like, it's not like net zero. It's not like net net zero. zero. So if you have 10 10 units units of Papa, for the आफ़् पापा टेन् युनिट्स् आफ़् पापा यु ह् टु एक्स्पीरियन्स् दुकम् इफ़् यु ह् टेन् युनिट्स् आफ़् पुण्या यु हव् the एक्स्पीरियन्स् द सुखं फोर् द टेन् युनिस् इट् लैन् अण्ड् टेन् गेट् आफ्सेट् एण्ड् यु डोट् एक्स्पीरियन्स् एनी सुख अण्ड् दुका अस्तु अस्तु तेषां द्वयोः यत् Phalam अस्ति tat आगच्छति अस्माभिः अस्माकं इत्युक्ते इत्युक्ते पूर्वं किमपि पापकर्म कृतं केनचित् तर्हि सः चिन्तयति मया चौर्यकार्यं कृतं तर्हि इतः अग्रे अहं किञ्चित् पुण्यकार्यं करोमि तेन पूर्वं कृतं पापकार्यं नष्टं नष्टं भवति इति तथा नास्ति अस्तु एतत् न भवति न सम्भवति अस्तु अस्य एकं कर्म स्वतन्त्रम् अस्ति प्रत्येककर्मं दुष्कृ दुष्कृतकर्म अस्ति वा सत्कर्म अस्ति द्वयोः फलम् अस्मिन् जन्मनि एव भोक्तव्यं भवति दुःखेन वा सुखेन आगच्छति शुभ शुभ अशुभानि सर्वाणि कर्माणि मनसि विकृतिं जनयन्ति इति पूर्वं दृष्टम् यदि कर्म शुभः वा अशुभः अस्ति मनसि विकृतिः तु भवति एव द्वयोः कर्मणः कर्मणः कर्मणा सह इति अस्ति मनसः सामान्यं रूपं प्राप्तुं विकृति सामानविपरीतप्रतिक्रियाद्वारा निष्कासिता भवति विकृतिः किमस्ति अत्र एतत् शुभ इत्युक्ते वयं वयं दृष्टवन्तः खलु मनः तु जतु कन्दुकः कन्दुकम् इव अस्ति लैक् अ रब्बर् बाल् यदा कर्म कुर्मः देर् इस् जस्ट् फ़र् अण्डर्स्टाण्डिङ्ग् यदा कर्म कुर्मः देर् इस् अ डिप्रेशन् इन् द बाल् रैट् एण्ड् द कर्मफल इस् ब्रीङ्ग् द डिप्रेशन् बेक् टु दोरिजिनल् स्टेट् हा तर्हि शुभकर्म वा भवतु अशुभकर्म वा भवतु मनसि विकारः जायते Mm -hmm. तर्हि कर्मपलम किमर्तम प्रकृतिया एतादृशं किमर्तम नियमः प्रकृतिया नियमः कृतः इति चेत् तर्हि कर्मफलद्वारा तत्र मनः पूर्वावस्थां प्राप्नोति द डिप्रेशन् गेट्स् इट् गेट्स् बेक् टु द ओरिजिनल् शेप् मनसः सामान्यरूपं प्राप्तुं विकृतिः समानविपरीतप्रतिक्रियाद्वारा निष्कासिता भवति by an opposite reaction that depression gets removed right every action has an opposite reaction mm -hmm. and by that reaction by that karma pala that depression in the ball gets removed and the mind comes back to the original shape it means uh, uh, uh, karma pala uh, uh, parinama astit atat palam aham saha me पूर्ति भवति कर्मफलस्य तदनन्तरं पुनः सामानस्थितिः आगच्छति समानस्थितिः इति प्रकृतेः नियमाः इति एवं रीत्या तत्र मनसः अधोगतिः उपरि गमनम् इति तु वयं जानीमः खलु कदाचित् उपरि गच्छति कदाचित् अधोभागे गच्छति कदाचित् बहु बहु अधोभागे अपि गच्छति तत्तु तत्र कर्मफलस्य प्रभावः एव तत्र कदाचित् उपरि गच्छति तत्र यदा कर्म कुर्मः तदानीं मनसि परिवर्तनं जायते तत्र यदा संस्काराणां भोगः भवति यदा कर्म कुर्मः तदानीं संस्कारः जायते संस्कारः जायते संस्कारस्य भोगः कर्मफलरूपेण भवति तत्तु अस्मिन् जन्मनि भवितुमर्हति वा अग्रिमजन्मनि भवितुमर्हति यावत्पर्यन्तं कर्मफलस्य भोगः न भवति तादृशसंस्कारस्य नाशः न भवति तदानीं किं भवति इति चेत् मनः पुनः पूर्वावस्थां न प्राप्नोति अतः दुष्कर्मः जन्या विकृतिः सत्कर्मभिः दूरीकर्तुं न शक्यते यतः तानि केवलं मनसि अधिकं विकृतिः जनयन्ति इति यथा वयम् इदानीम् उक्तवन्तः यदि दुष्कर्मकर्म कृतमस्ति तस्य यत् विकृति मनसि भवति तत् तत्तत् ता, कारणेन किमपि शारीरिकं वा मानसिकं वा बुद्ध्याः किमपि यत् विकार गच्छति तत् भवति एव यावत् पर्यन्तं तत् पू तस्य कर्म प्रतिक्रियायाः पूर्तिः भवति तावत्पर्यन्तम् इति चल विकृतिः भवति यदि विकृति इति अपगच्छति पूर, पूर्तिः भवति तत् तत् विकृति वयं सत्कर्म कर्म कर्मणः न परिवर्तुं शक्नुमः तत् समान एव यत् वयं पूर्वम् उक्तवन्तः इति अस्ति सत्कर्म सत्कर्मणा दुष्कर्म दुष्कर्मणः विकृतिः न परिवर्तुं शक्नुमः इति अस्ति प्रत्येकं कर्मणः स्वतन् स्वतन्त्रा समान विपरीता च प्रतिक्रिया भवेत् प्रत्येककर्मस्य स्वतन्त्रतया तस्य स्वस्य एव यत् फलं भवति तस्य अनुसारेण मनसि विकृतिः आगच्छति यदि विकृति दुः भवे आ, सुखेन किमपि इति भवति यदा प्रत्येकं विकृतिः स्वतन्त्रप्रतिक्रियाद्वारा निष्कासिता भवति तदा शुभाशुभकर्मणां परिणामाः पृथक् पृथक् अनुभोक्तव्या भवन्ति सो प्रत्येककर्म कर्मणः स्वतन्त्रतया तस्य विकृतिः आगच्छति तस्य परिमाणम् अपि स्वतन्त्रतया भोक्तव्यं भवति किन्तु इति यदि दुःख अस्ति सुखविकृतिः कापि अस्ति तस्य अस्माकं न्यूट्रल् एफेक् वि न्यूट्रल् टु देट् रैट् इति अस्मा अस्माकं रियाक्षन् भवेत् अतः दुष्टकर्मभ्यः ये दुष्परिणामाः उत्पन्नाः भवन्ति तेभ्यः परिणामेभ्यः यथा दुःखं जायते तत् दुःखं सत्कर्मफलानां साहाय्येन परिहर्तुं न शक्यते पुनः स एव विचारदत्तमस्ति दस, दुष्कर्मणि कर्मणा कर, वयं सत्कर्म कर्मणानां कर्मणेभ्यः न परिवर्तुं शक्नुमः यत् दुष्कर्मणा फल इति भोक्तव्यम् एव भवति इति परिहर्तुं न शक्यते दुष्कृतानां दुष्परिणामाः सत्कर्मणां सत्परिणामा अस्माभिः पृथक् पृथक् अनुभोक्तव्याः भवन्ति एतदेव प्रकृतेः नियमः यः कर्म कीदृशकर्म मनुष्य करोति दुष्कर्म वा सत्कर्म तस्य अनुसारेण तस्य परिणामं प्राप्नोति इति दुष् सत्कर्मस्य सत्कर्मण सत् समीचीनं भवति दुष्कर्मफल दुष्टं भवति इति अस्ति आमां समीचीनं भगिनी इति एव अस्ति तत्र अत्र विचारः सरलः एव विचारः अस्ति तर्हि यद् कर्म अस्माभिः क्रियते तस्य संस्काराः भवन्ति संस्कारस्य भोगः कर्मफलरूपेण भवति अस्मिन् जन्मनि वा भवति अथवा अग्रिमजन्मनि अथवा अग्रिमजन्मसु तर्हि तत्र यद् कर्म कृतं तस्य कर्मफलं पुण्यरूपेण वा पापरूपेण वा भवति तयोः आफ्सेट् न भवति पुण्यरूपेण कर्मफलं कर्मफलम् चेत् तस्य भोगः तत्र पुण्यरूपेण अस्माभिः अनुभोक्तव्यं पापरूपेण कर्म चेत् तस्य कर्मफलं पापरूपेण तत्र पापं तत्र पापकर्मफलं दुःखरूपेण अस्माभिः अनुभोक्तव्यं तर्हि तयो आफ्सेट् कर्तुं न शक्नुमः mm -hmm. इति विषयः अस्ति तत्र mm -hmm. जनाः एवं चिन्तयन्ति यद् इदानीं मया पापकर्म कर्म, कर्म कृतम् अतः इदानीं किञ्चित् कालानन्तरम् अहं पुण्यकर्म करोमि येन ना पापकर्मस्य नाशः भवति इति ते mm -hmm. चिन्तयन्ति तथा नास्ति वस्तुतः तथा mm -hmm. नास्ति यत् कर्म तस्य भोगः अस्माभिः अवश्यं अवश्यम् आम् अवश्यं भवति इति अस्ति अत्र स्थगनं कुर्मः अस्तु भगिनि भगिनी अग्रिमे सप्ताहे अहं न जानामि आगन्तुं शक्नोमि वा न इति ओके ओके सूचयामि अस्तु सूचयतु प्रायः एट् थर्टि तक् अहं किन्तु न जानामि वदतु सूचयतु भगिनि आम् अस्तु तर्हि धन्यवादः नमस्कारः हरि ओम् आर्य धन्यवादः एकवारं धन्यवाद पशुपतिः इति सन्देशमेकं प्रेषयति किम् आमां प्रेषयामि पशुपतिः इति सन्देशं किं कीदृशसन्देशः पशुपतिः इत्युक्ते किम् इति साधकरूपेण ओके ओके शास्त्रपशुपतिः तु वयं शिवस्य नाम एव ना, महादेवस्य नाम एव शिवस्य नाम एव पशुपतिः वीरेश्वरः महादेवः एतत् सर्वं परमेश्वरस्य नाम अस्तु तर्हि धन्यवादः नमस्कारः